एकादशोऽध्यायः अर्जुन उवाच परमं परमम् गुह्यम् अध्यात्मसंज्ञितम् यद्वयोक्तम् वचह तेन मोहो विगतो मम भवाप्ययौ हि भूतानाम् श्रुतौ विस्तरशो मया त्वत्तः कमलपत्राक्ष माघात्म्यमपि अव्ययम् एवमेतद्यथा आत्मानम् परमेश्वरा द्रष्टुमिच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तमा न्यसे यदि तच्छत्यम् मया द्रष्टुम् इति प्रभो योगेश्वर ततो मे त्वम् अव्ययम् श्री भगवानुवाच पश्य मे पार्थरूपाणि शतशोध सहस्रशः नानाविधानि दिव्यानि नाना मरुतः तथा बहूनि अदृष्ट शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा दिव्यम् ददा जयमुवाच एवमुक्त्वा ततो महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपमैश्वरम् अलेकवत्रनयनम् सहस्रस्य भवे युगपदुत्थिता यदि भा सदृशी स्यात् भासः तस्य महात्मनः विस्मया विश्च हृष्टरो मा प्रणम्य शिरसा उरगांश्च दिव्या Let's do it. She's only a letter शङ्का र्वयक्षा सुरसिद्धसन्धा वीक्षन्ते त्वा विस्मिताश्चैव सर्वे राष्ट्रस्य पुत्राः सर्वे सहैवावनिपानसङ्घै भीष्माद्रोणः सूतपुत्रः तथासौ सखास्मदीयैरपि योधमुख्यै वक्त्राणि ते त्वरमाणाविशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्ना दशरान्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तमा मुद्रवेवाभिमुखाद्रवन्ति तथा samr भगवान् कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः कृतेऽपित्वाम् न भविष्यन्ति सर्वे ये स्थिताः प्रत्यनीके What's up, yes, sir? ञ्जलिः देपमान किरीटी नमस्कृत्वा भूयवाद कृष्णम् सगद्गदम् भीतभीत प्रणम्या of the world. a yeah. विश्वस्य परं निधानम् वेत्तास् वेद्यम् च परम् च धा अथ पृच्छदस्ति नमोऽस्तु ते सर्वत एव सर्व अनन्तवीयातविक्रमत्वम् सखेति मत्वा प्रसभं यदुक्तम् हे कृष्णा हे यादव हे सखे चावहासार्थम् असत्कृतोऽसि विहारशय्यासनभोजनेषु एकोऽथवाप्यच्युत तत्समक्षम् तच्चामये त्वा अहमप्रमे राचयस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् नत्वत्समोऽस्ति अभ्यधिकः कुतोन्यो अदृष्ट पूर्वम् हृषितोऽस्ति दृष्ट्वा भयेन च प्रव्यथितम् मनो मे तदेव मे दर्शय Good job. भगवाच मया प्रसन्नेन तवार्जुनेदम् रूपम् पदम् दर्शितम् आत्मयोगात् तेजोमयम् विश्वम् अनन्तम् आद्यम् यन्मे त्वदन्येन न दृष्टपू abhi nukrai evan सञ्जय उवाच इत्यर्जुनम् वासुदेवस्तथोक्त्वा स्वकंरूपम् दर्शयामास भूयत आश्वासयामास च गीतमेलम् भूत्वा पुनः सौम्यवपुः महात्मा अजुन उवाच दृष्ट्वेदम् मात्यम्पम् तव सौम्यम् जनार्दना इदानीम् अस्मि संवृत्तग स चे